द्वितीयोऽध्यायः ओम् मध्यमचरित्रस्य विष्णुर्षिर्महालक्ष्मीर्देवता उष्णिच्छन्दः शाकम्भरीशक्तिः दुर्गाबीजम् वायुस्तत्त्वम् यजुर्वेदस्वरूपम् श्रीमहालक्ष्मीप्रीत्यर्थम् मध्यमचरित्रजपे विनियोगः ध्यानम् शस्रक्परशुम् गदेषु कुलिशम् पद्मम् धनुष्कुण्डिकाम् दण्डम् शक्तिमसिम् चर्म जलजम् घण्टाम् सुराभाजनम् शूलम् पाशसु दर्शने च दधतीम् हस्तैः प्रसन्नाननाम् सेवेशैलिभवमर्दिनीमिह महालक्ष्मीम् सरोजस्थिताम् देवासुरमभोद्युद्धम् पूर्णमब्दशतम् पुरा महिषेऽसुराणामधिपे देवानाम् च पुरन्दरे तत्रासुरैर्महावीर्यैर्देवसैन्यम् पराजितम् जित्वा तसकलान् देवानिन्द्रो भोन्महिषासुरः ततः पराजिता देवाः पद्मयोनिम् प्रजापतिम् पुरस्कृत्य गतास्तत्र यत्रेश गरुडध्वजौ यथा वृत्तम् तयोस्तद्वन्महिषासुरचेष्टितम् त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् सूर्येन्द्राज्ञनिलेन्दूनाम् यमस्य वरुणस्य च अनन्येषाम् चाधिकारान् स स्वयमेवाधितिष्ठति स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि विचरन्ति यथा मर्त्या महिषेन दुरात्मना एतद्वः कथितम् सर्वमरारिविचेष्टितम् शरणम् वः प्रपन्ना स्मो वधस्तस्य विचिन्त्यताम् इति थम् निशम्य देवानाम् वचांसि मधुसूदनः चकारकोपम् शम्भुश्च भ्रुकुटीकुटिलाननौ ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः निश्चक्राममहत्तेजो ब्रह्मणः शङ्करस्य च अन्येषाम् चैव देवानाम् शक्रादीनाम् शरीरतः निर्गतम् सुमहत्तेजस्तच्चैक्यम् समगच्छत अतीव तेजसः कोटम् ज्वलन्तमिव पर्वतम् दर्शुस्तेऽसुरास्तत्र ज्वालाव्याप्तनिरन्तरम् अतुलम् तत्र ज्वाला तत्तेजः सर्वदेवशरीरजम् एकस्थम् तदभून्नारी व्याप्तलोकत्रयम् त्विषा यदभूच्छाम्भवम् तेजस्तेनाजायत तन्मुखम् याम्येन चाभवन् केशा बाहवो विष्णुतेजसा सौम्येन स्तनयोर्युग्मम् मध्यम् ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा वसूनाम् चकराङ्गुल्यः कौबेलेन च नासिका तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा नयनत्रितयम् जज्ञे तथा पावकतेजसा भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च अन्येषाम् चैव देवानाम् सम्भवस्तेजसाम् शिवा ततः तेजोराशिसमुद्भवाम् ताम् विलोक्यमुदम् प्रापु रमरामहिजार्दिताः शूलम् शूलाद्विनिष्कृष्य ददौ तस्यैपि शङ्खम् च वरुणः ददौ तस्यै हुताशनः मारुतो दत्तवाम् शापम् बाणपूर्णे तथेषुधि वज्रमिन्द्रः ददौ तस्यै सहस्राक्षो घण्टामैलावताद्गजात् कालदण्डाद्यमो दण्डम् पाशम् चाम्बुपतिर्ददौ प्रजापतिश्चाक्षमालाम् तदो ब्रह्मा कमण्डलुम् समस्तरोमकूपेषु निजरश्मीन्दिवाकरः कालश्च दत्तवान् खड्गम् तस्याश्चर्म च निर्मलम् क्षीरोदश्चामलम् हारमजरे तथाम्बरे चूडामणिम् तथा दिव्यं कुण्डले कटकानि च अर्धचन्द्रम् तथा शुभ्रम् केयूरान् सर्वबाहुषु नोपरो विमलो तद्वत्कैवेयकमनुत्तमम् अङ्गुलीयकरत्नानि समस्ताः स्वङ्गुलीषु च विश्वकर्मा ददौ तस्यै परशुम् चातिनिर्मलम् अस्त्राण्यनेकरूपाणि तथा भेद्यम् च दर्शनम् अम्लानपङ्कजाम् मालाम् शिरश्युरसि चापराम् अददज्जलधिस्तस्यै पङ्कजम् हिमवान्वाहनम् सिंहम् रत्नानि विविधानि च ददावशून्यम् सुरया पानपात्रम् धनाधिपः शेषश्च सर्वनागेशो महामणि विभूषितम् नागहारम् ददौ तस्यै धत्ते यः पृथिवीमिमाम् अन्यैरपि सुरैर्देवीभूषणैरायुधैस्तथा सम्मानिताननादोर्चैः साट्टः सम्मुहर्मुहुः तस्यानादेन घोरेण कृत्स्नमापूरितम् नभः अमायताति महता प्रतिशब्दो महानभूत् चक्षुभः सकलालोकाः समुद्राश्च च कम्बिरे महीधराः जयेति देवाश्चमुदातामूजः सिंहवाहिनी भक्तिनम्रात्ममूर्तयः दृष्ट्वा समस्तम् सङ्क्षुब्धम् त्रैलोक्यममरारयः सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः आह्मेतदिति क्रोधादाभाष्यमहिजासुरः अभ्यधावतम् शब्दमशेषैरसुरैर्वृतः सददर्श ततो देवीम् व्याप्तलोकत्रयाम् त्विषा पादाक्रान्त्या न तभुवम् किरीटोल्लिखिताम्बराम् क्षोभिताशेषपातालाम् धनुर्ज्यानि स्वनेन ताम् दिशो भुजसहस्रेन समुन्ता व्याप्यसंस्थिताम् ततः प्रवृते युद्धम् तया देव्यासुरद्विषाम् शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् मह्यासुरसेनानीश्चिक्षुराख्यो महासुरः युयुे चाच्युरंगबला रुतग्राख्यो महासुर अयु्यतायुताह महा हनु पंचाश्दियुतरशिलो महासुर अयुता षड्भिबाषो युयुेरने गवाजिसहसैरनेकै पिरी वृतो रथानाम् कोट्या च युद्धे तस्मिन्नयुध्यत विलाख्यो युतानाम् च पञ्चाशद्भिरथा युतैः युयुधे संयुगे तत्र रथानाम् परिवारितः अन्ये च तत्रायुतशो रथनागहयैर्वृताः ययुधुः संयुगे देव्या सह तत्र महासुराः कोटिकोटिसहस्रैस्तु रथानाम् दन्तिनाम् तथा तत्रा भयाना चुत युद्ध तोन्म शासुर शक्तिर्मुसलस्तुधु संयुगे दिव्या खड़गै परशुपट्टिशिच्चिक्षुप्तीचिपाशास्तरे दी खग प्रहारेस्तेता हूं प्रचक्रमु सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका लीलयैव प्रचिच्छेदनिज शस्त्रास्त्रवर्षिणी अनायस्तानना देवी स्तूयमानासुरर्षिभिः मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी सोऽपि क्रुद्धो धृतसटो देव्यावाहनकेशरी प्रचारासुरसैन्येषु वनेष्विव निःश्वासान्मुचेयांश युध्यमाना रणेऽम्बिका त एव सद्यः सम्भूता गणाः शतसहस्रशः युयुधुस्ते परशुभिर्भिन्दिपालासि पट्टिशैः नाशयन्तोऽसुरगणान् देवी शक्त्युपबृंहिताः अवातयन्तपटहान् गणाः शङ्खांस्तथापरे मृदङ्गांश्च तदैवान्येतस्मिन् ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः खड्गादिभिश्च शतशो निजगानमहासुरान् पातयामास चैवान्यान् घण्टास्वनविमोहितान् असुरान् भुविपाशेन बध्वाचान्यानकर्षयत् केचिद्विधा कृतास्तीक्ष्णे खड्गपातैस्तथा परे विबोधितानि पातेन गदया भुवि वेमुश्च केचिद्रुधिरम् मुसलेन भृशं हताः केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि निरन्तरा शरोघेन कृताः केचिद्रणाजिरे श्येनानुकारिणः प्राणान्मुचस्त्रिदशार्दनाः केषाञ्चिद्बाहवच्छिन्नाश्छिन्नग्रीवास्तथापरे श्रिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः विच्छिन्नजङ्घास्त्वपरे पेतुर्व्याम् महासुराः एकपाक्पक्षिचरणाः केचिद्देव्या द्विधाकृताः शृन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्सिताः कबन्धायुधुर्देव्या गृहीतपरमायुधाः नर्तुश्चापरे तत्र युद्धे तुर्यलयाश्रिताः कवन्धा छिन्नशिरसः खड्गशदृष्टिपाणयः तिष्ठतिष्ठेति भाषन्तो देवी मन्ये महासुराः पातितेरथरागाश्वैरसुरैश्च वसुन्धरा अगम्या सा भवत्तत्र यत्राभोत्समहारणः शोणितौघामः नद्यः सद्यस्तत्र प्रसुस्रुवः मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् क्षणे अतन्महासैन्यमसुराणाम् तथाम्बिका निन्ये क्षयम् यथा वृह्णिस्त्रिणदारुमहाचयम् सरसिंहो महानादमुत्सृजन्धुरकेशरः शरीरेभ्यो मरारीणामसूनिव विचिन्वति देव्या गणैश्च तैस्तत्र कृतम् युद्धम् महासुरैः यथै यथैषाम् ततु शुर्देवाः पुष्पवृष्टिमुचो दिवि ओ इति श्री श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्मे महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः